श्री रुद्र श्रीरुद्रप्रश्नः प्रथमोऽन्वाकः श्रीगुरुभ्यो नमः हरि ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वणे बाहुव्यामुत ते नमः यात इषो शिवतमा शिवं भभूवते ते धनुः शिवासरभ्या ज्ञातवत या नो याते ते रुद्रशिवा तनूरघोरा पापकाशिनी तया नस्तनुवा सन्तमया गिरिसन्ताविचाकसी यामिशं गिरिसन्त हस्ते बिभर्षिस्तवे शिवां शिवां गृत्रतां कुरु माहि गंसि पुरुषं जगत् शिवेन वचसात्त्वा गिरिसा यथा सर्वमि जगति यक्ष्मगंसुमना असत अद्यवोचदधिवक्ता प्रथमो दैव्योऽभिचक अहि गंश सर्वा आं जम्भयं सर्वा आं मागं रुद्रा अभितो दैत्योसृता सहस्रशोभै सागं हीर इमहे असौ यो वसर्पती नीलग्रीवो विलोहितः उतैनं गोपा अधिसन्नुदिसन्नुदार्यः उतैनं विश्वाभूतानि सदृष्टो मृडयाति नः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे ए अथो ये अस्तसत्त्वानोऽहं तेभ्यो करण्डमः प्रमुञ्च धन्वरस्तुभयोरार्तो्याम यास्य ते हस्तै शवः परा ता भगो वप अवतत्त धनुस्त्वघं सहस्राक्ष स निशिर्य शल्याणां मुखाशिभुना सुमना वैद्यं धनो कपलतिरो विशल्यो बाणवागम् उत अणे सन्न्यस्येषव आभुरस्यानिषङ्गति या हे ते हेतुर्भिरुस्तमहस्ते बभूव ते धनुः तयास्मान् विश्वतस्त्वमत्मया परिभुज नमस्ते अस्त्वाद्युधा जानात ता उभाभ्यामुचते नवो बाहुभ्यां तव धन्वने परिते धन्वनो हेतिरस्मान् विनक्तु विश्वतः अथो य इषुधिस्तवारे अस्मिन्निधेहि तमां सम्भवे नमः नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः ॐ शान्तिः शान्तिः शान्तिः हरिः ओम